कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे प्रथमः प्रश्नः प्रारम्भः ओता जुहोति जुहोति प्रसूत्यै प्रसूद्यै चतुर्गृहीतेन प्रसूद्यादिति प्रासूत्यै चतुर्गृहीतेन जुहोति चतुर्गृहीतेनेति चतुः गृहीतेन जुहोति चतुष्पादः चतुष्पादः पशवः चतुष्पाद इति चतुर्पादः पशवः पशू पशूनेव एवाव अवरुन्धे रुन्धे चतस्रः चतस्रो दिशः दिशो दिक्षु दिक्ष्वेव एव प्रति प्रतिष्ठति दे, तिष्ठति छन्दागुंसि छन्दागुंसि देवेभ्यः देवेभ्यो रह लभः वो भागानि अभागानि हव्यम् हव्यम् वक्ष्यामः वक्ष्याम इति तेभ्यः तेभ्य एतत् एतच्चतुर्गृहीतम् चतुर्गृहीतमधारयन् चतुर्गृहीतमिति चतुरोगृहीतम् अधारयन् रोणवाक्यायै रोणवाक्यायै यायि रोणवाक्याय रो इति पुरहानुवाक्यादि याध्यायै देवतायै देवतायै वषट्काराय वषट्काराय वषट्काराय इति वषट्काराय यच्चतुर्गृहीतम् चतुर्गृहीतम् जुहोति चतुर्गृहीतमिति चतुर्गृहीतम् जुहोतिच्छन्दागंसि छन्दाकस्येव एव तत् तत्प्रीणाति क्रीणातितानि तान्यस्य यस्य प्रीतानि प्रीतानि देवेभ्यः देवेभ्यो हव्यम् हव्यम् वहन्ति वहन्ति यम् कामयेत कामयेत्पापीयान् पापीयान् स्यात् स्यादिति एकैकम् एकैकम् तस्य एकैकमित्येकम् एकम् तस्य जुहुयात् जुहुयादाहुदीभिः आहुदेभिरेव आहुदेभिरित्याहुदेवभिः एवम् एनम् वा अपगृह्णादि गृह्णादिपापीयान् पापीयान् भवति भवतियम् यम् कामयेत कामयेदवसीयान् वसीयान् स्यात् स्यादिजि इति सर्वाणि सर्वाणि तस्य तस्यानुदृत्य अनुदृत्य जुहुयात् अनुदृत्येत्यनुदृत्य जिहुयादाहृत्या आहृत्यैव आहुत्येत्याहृत्यः एवैनम् एनमपि अभिक्रमयति क्रमयतिवसीयान् असीयान् भवति भवत्यथो अथो यज्ञस्य अथो इत्यथो यज्ञस्यैव एैषा एषाभिक्रान्तिः अभिक्रान्तिरेति अभिक्रान्तिरेत्यभिक्रान्तिः एति वै वा एषः एष यज्ञमुखाद् यज्ञमुखादृध्याः यज्ञमुखादिति यज्ञामुखाद् अध्यायः यो अग्नेः अग्नेर्देवतायाः देवताया देवता एति एतेष्टौ अष्टावेतानि एतानि सा वित्राणि सा वित्राणि भवन्ति भवन्तष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरे अष्टाक्षराः गायत्री गायत्रः गायत्रोऽग्निः अग्निस्तेन तेनैव एव यज्ञमुखाद् यज्ञमुखादृभ्या आह यज्ञमुखादिति यज्ञामुखात् तद्ध्या ना देवता येन न इति अष्टौ सा वित्राणि सा वित्राणि भवन्ति भवन्त्याहुतिः आहुतिर्नवमी आहुतिरित्याहुतिः नवमी त्रिवृतम् त्रिवृतमेव त्रिवृतमिति त्रिवृतम् एव यज्ञमुखे यज्ञमुखे यज्ञमुखे नियातयति यातयति यदि यदि कामयेत कामयेत् छन्दागुंसि छन्दाकंसि यज्ञैषसेना अर्पयेयम् यज्ञैषसेनेति यज्ञायुषसेन अर्पयेयमिति इदृचम् चमन्तमाम्माम् कुर्यात् कुर्याच्छन्दांसि छन्दाकस्येव एव यज्ञैशसेन यज्ञैशसेन अर्पयति यज्ञैषसेनेति यज्ञायशसेन अर्पयेति यदि यदि कामयेत कामयेत यजमानम् यजमानम् यज्ञैषसेना अर्पयेयम् यज्ञैषसेनेति यज्ञायुषसेन अर्पयेयमिति इति यजोः यजुरन्तमम् अन्तमम् कुर्यात् कुर्याद्यजमानम् यजमानमेव एव यज्ञैषसेन यज्ञैषसेन अर्पयति यज्ञैषसेनेति यज्ञायशसेन अर्पयत्युचा रुचा स्तोमम् स्तोमपुंसम् समर्धय अर्धयेति इत्याह आहसम्यै समृद्ध्यै चतुर्भिः समृद्ध्या इति सामृद्धि चतुर्भिरर्भिम् चतुर्भिरिति चतुर्भिःभिमा आदधे रद्धे चत्वारि चत्वारि छन्दागुंसि छन्दागुंसि छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एव देवस्य देवस्य त्वा प्रासविदुः सविदुः प्रसवे प्रसवैति प्रसवैति प्रासवे इत्याह आह प्रसूर्द्धि प्रसोद्या अग्निः प्रसूद्या इति प्रासूद्विः अग्निर्देवेभ्यः देवेभ्यो निलायत निलायत सः सवेणुम् वेणुम् प्राविशत् अविशत्सः स एताम् एतामूतिम् ऊतिमनु अनुसम् समचरत् अचरद्यत् यद्वेणोः रेणो असुषिरम् सुषिरम् सुषिरा सुशिराभिः अभ्युर्भवति भवति सयोनित्वाय सयोनित्वाय सः यत्र यत्र यत्र यत्रावसत् यत्र यत्रेति यत्र यत्र अवसत्तत् तत्कृष्णम् कृष्णमभवत् अभवत्कन्माषी कन्माषी भवति उभयरूपसमृद्ध्यौ रूपसमृद्ध्या उभयतः रूपसमृद्ध्या इति रूपासमृद्धिः उभयतः भवतीतः इतश्च चामृदः अमृतश्च चार्कस्य अर्कस्यावरुद्धि अवरुद्धि व्याममात्री अवरुद्ध्या इत्यवरुद्ध्यै व्याममात्री भवति व्याममात्रीति व्यामामात्री भवत्येतावत् एतावद्वै वै पुरुषे पुरुषे वीर्यम् वीर्यम् वीर्यसंहिता वीर्यसंहितापरिमिता वीर्यसंवितेति वीर्या संहिताः अपरिमिता भवति अपरिमितेत्यपरिमिताः भवत्यपरिमितस्य अपरिमितस्य अवरुद्धिः अपरिमितस्येत्यपरिमितस्य अववृद्धि यः अवरुद्ध्या इत्यववृद्धिः यो वनस्पतीनाम् वनस्पतीनाम् फलग्रहिः फलग्रहिः सः फलग्रहिरिति फलाग्रहिः स येषाम् येषाम् वीर्यावान् वीर्यावान् फलग्रहिः फलग्रहिर्वेणुः फलग्रहिरिति फलाग्रहिः वेणुर्वेणवी वैणवी भवति भवति वीर्यस्य वी वीर्यस्य अवरुद्धि अवरुद्धा इत्यवरुद्धि व्यर्थम् वै व्यर्थमिति एतद्यज्ञस्य यज्ञस्य यत् यदयजुष्केण अयजुष्केण क्रियते अयजुष्केण यजोकेन क्रियत इमाम् इमामगृभन् अगृभन् वशनाम् वशनामृतस्य ऋतस्येति इत्यश्वाभिधानीः अश्वाभिधानीमा अश्वाभिधानी इत्यश्वाभिधानीः आदत्ते दत्ते यजुष्कृत्यै यजुष्कृत्यै यज्ञस्य यजुष्कृत्यादि यजुः कृत्यैः यज्ञस्य समृद्धि समृद्धिः प्रतोऽर्तम् समृद्ध्या इति समृद्धिः प्रतोऽर्तम् वाजिन् प्रतोऽर्तमिति प्रातोर्तम् वाजिन्ना आद्रव द्रवेति इत्यश्वम् अश्वमभि अभिदधापि तथापि रूपम् रूपमेव एवास्य अस्यैतत् एतन्महिमानम् महिमानम् व्याचष्टे व्याचष्टे युञ्जाथाम् व्याचष्टे आचष्टे युञ्जाथासवम् रासभयुगम्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 एवैनयुङ् युङ्क्ते वाजे वाजे वाजे वाजे हवामहे वाजे वाजेति वाजे वाजे हवामः इति इत्याह आहान्नम् अन्नम् वै वै वाजः अन्नमेव एवाव अवरुन्धे रुन्धे सखायः सखाय इन्द्रम् इन्द्रमूदये ऊदयेति इत्याह आहेन्द्रियम् इन्द्रियमेव एवाव अवरुन्धे रुन्धेग्निः अग्निर्देवेभ्यः देवेभ्यो लीलायत लीलायतम् तम् प्रजापतिः प्रजापतिर्णो प्रजापतिर्दिति प्रजापतिः अन्वविन्दते अविन्दत्प्राजापत्यः प्राजापत्योऽश्वः प्राजापत्यैरिति प्राजावत्यः अश्वोऽश्वेन अश्वेन सम् सम्भरति भरत्यनुविद्यै अनुविद्यै पापवस्य सम् अनुविद्या इत्यनो विद्यै पापवस्य सं वै पापवस्य समिति पापावस्य सम् वा एतत् एतत् क्रियते क्रियते यत् यच्छ्रेयसा श्रेयसा च पापीयसा पापीयसा च समानम् समानम् कर्म कर्म कुर्वन्ति कुर्वन्ति पापीयानि पापीयानि हि अश्वात् अश्वाद्गर्दभः गर्दभोऽश्वम् अश्वम् पूर्वम् पूर्वम् नयन्ते नयन्ति पापवस्य तस्य पापवस्य तस्य व्यावृत्त्यै पापवस्य पापवस्य तस्य व्यावृत्त्यै तस्माद् व्यावृत्त्या इवि आवृत्त्यै तस्माच्छ्रेयागुंसम् श्रेयागुंसम् पावीयान् पावीयान् पश्चाद् पश्चाद नो अन्वेति यदि बहुः बहुर्वै वै भवतः भवतो भ्रातृव्यः भवति भवति इव इव खलु खलु केशयः योऽग्निम् अग्निम् चिनुरे चिनुरे वज्रि वज्रिश्वः अश्वः प्रदोर्वन् प्रतोर्वन्ना प्रतोर्वन्यति प्रादोर्वन् एहि इह्यवक्रामन् अवक्रामन् अशस्तीः अवक्रामन्यत्यवक्रामन् अशस्तीति इत्याह आह वज्रेण एव पाह्मानम् पाह्मानम् भ्रातृव्यम् भ्रातृव्यमव अपक्रामति क्रामति वृद्रस्य गाणपत्यादिति गाणपत्यादिति गाणापत्यात् इत्याह आह रौद्राः रौद्रा वै रुद्रादेव रुद्रा एव पशून् पशून्निर्या च निर्याचात्मने निर्याच्येति निहीया आत्मने कर्म कर्म कुरुते कुरुते भूष्णा पूष्णा सयुजाः सयुजा सह सयुजेति सायुजाः सहेति इत्याह आह पूषा पूषा वै वा अध्वनाम् अध्वनापुम्सम्नेता सन्नेता समष्ट्यै सन्नेतेति सम् नेता समष्ट्यै पुरीषायतनः समष्ट्या पुरीषायतनो वै पुरीषायतन इति पुरीषा आयतनः वा एषः एष यत् यदग्निः यत अग्निरङ्गिरसः अङ्गिरसो वै वा एतम् एतमग्रेः अग्रे देवतानाम् देवतानापंसम् देवता समभरन् अभरम् पृथिव्याः पृथिव्यात् सधस्थात् सधस्थादग्निम् सधस्थादिति सधास्तात् अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वद् अङ्गिरस्वदच्छ अच्छेः इहीति इत्याह आहसायतनम् सायतनमेव सायतनमिति सा आयतनम् एवैनम् एनम् देवताभिः देवताभिः सम् सं, सम्भरति भरत्यग्निम् अग्निम् पुरीष्यम् पुरीष्यमङ्गिरस्वद अङ्गिरस्वदच्च अच्छेमः इम इत्याह आहयेन येन सङ्गच्छते सङ्गच्छते वाजम् सङ्गच्छद इति सङ्गच्छते वाजमेव एवास्य अस्य वृन्दे वृन्दे प्रजावदये प्रजावये प्रतिप्रोच्य प्रजापते प्रजावदे प्रतिप्रोच्याग्निः प्रतिप्रोच्यति प्रतिप्रोच्य अग्निः संहृत्यः संहृत्य इति संहृत्य इति संहृत्यः इत्याहो आहुयम् इयम् वै वै प्रजापतिः प्रजापतिस्तस्या आह प्रजापतिप्रजापतिः तस्या एतत् एतच्छ्रोत्रम् श्रोत्रम् यत् यद्वल्मीकः वल्मीकोऽग्निम् अग्निम् पुरिष्यम् पुरिष्यमङ्गिरस्वद् अङ्गिरस्वद्भरिष्यामः भरिष्याम इति वल्मीकपपाम् वल्मीकपपामुप वल्मीकवपामिति वल्मीकपपाम् उपतिष्ठते तिष्ठते साक्षात् साक्षादेव साक्षादिति साक्षात् एव प्रजापदये प्रजापदये प्रतिप्रोच्य प्रजापदयेति प्रजापते प्रदिप्रोच्याग्निम् प्रदेप्रोच्येति प्रदे प्रोच्य अग्निपुंसम् सम्भरति भरत्यग्निम् अग्निम् पुरीष्यम् पुरीष्यमङ्गिरस्वद् अङ्गिरस्वद्भरावह भराम इति इत्याह आहयेन येन सङ्गच्छते सङ्गच्छते वाजम् सङ्गच्छत इति सङ्गच्छते वाजमेव एवास्य अस्य वृन्तेः वृन्तेनो अन्वग्निः अर्ग्निरुषसाम् ऋषसामग्रम् अग्रमख्यत् अख्यदि इत्याह आहानुख्यातिः अनुख्यात्या आहत्य अनुक्ष्यात्या इत्यमुख्यातिः आहत्य वाजी आहत्येत्या आगत्य वाद्यध्वनः अध्वन आक्रम्य आक्रम्य वाजिन् आक्रम्येत्या आक्रम्य वाजिन् पृथिवीम् इत्याह आहेच्छति इच्छत्येव एवैनम् एनम् पूर्वया पूर्वया विन्दति विन्दत्युत्तरया उत्तरया द्वाभ्याम् आक्रमयलि <Sega> क्रमयलि प्रतिष्ठित्यै प्रतिष्ठित्या अनुरूपाभ्याम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अनुरूपाभ्याम् तस्मात् अनुरूपाभ्यामित्यनोरूपाभ्याम् तस्मादनुरूपाः अनुरूपाः बा, पशवः अनुरूपा इत्यनोरूपाः पशरवस्प प्रजायन्ते जायन्ते द्यौः द्यौस्ते ते पृष्ठम् पृष्ठम् पृथिवी पृथिवी सधस्थम् रथस्थमिति रस्थमिति इत्याह आहैभ्यः एभ्यो वै वा लोकेभ्यः लोकेभ्यः प्रजापतिः प्रजापतिः सम् प्रजापतिरिति प्रजापतिः समैरयत् ऐरेद्रूपम् रूपमेव एवास्य अस्यैतत् एतम् महिमानम् महिमानम् व्याचष्टे व्याचष्टे वज्री व्याचष्ट इति वि आचष्टे वज्री वै वा एषः यदश्वः अश्वो दद्भिः दद्भिरन्यतो दद्भ्यः दद्भिरिति ददद्भिः अन्यतो दद्भ्यो भूयान् अन्यतो दद्धैत्यन्यतो दद्भ्यः भूयान् लोमभिः लोमभिरुभयादद्भ्यः यम् दृश्यात् दृश्यात्तम् तमधस्पदम् तम अधस्पदम् ध्यागेत् अधस्पदमित्यथः पदम् ध्यायेद्वज्रेण वज्रेणैव एवैनम् येन ग्यशृणुते शृणुते उत्क्राम क्रामोद् उदक्रमेत् अक्रमेदिति विद्वाभ्याम् द्वाभ्यामत् उत्क्रमेदि क्रमेदि प्रतिष्ठित्यै प्रतिष्ठित्या अनुरूपाभ्याम् प्रतिष्ठित्यादि प्रतिष्ठित्यै अनुरूपाभ्याम् तस्माद् अनुरूपाभ्यामित्यनोरूपाभ्याम् तस्मादनुरूपाः पशवः अनुरूपा इत्यनोरूपाः पशवः प्रजायन्ते जायन्तेऽपः अप उप उपसृजरि सृजरेऽत्र वा आपः आप उपगच्छन्ति उपगच्छन्ति तत् उपगच्छन्तेत्युपागच्छन्ति तदौषधयः तत ओषधयः प्रतितिष्ठन्ते तिष्ठन्त्योषधीः ओषधेः प्रतितिष्ठन्तीः प्रतितिष्ठन्तेः पशवः प्रतितिष्ठन्तिप्रतिष्ठन्तीः पशवो नो अनुप्रति प्रतिष्ठन्ते तिष्ठन्ति पशोन् पशोन् यज्ञः यज्ञो यज्ञम् यज्ञ यजमानः यजमानो यजमानम् यजमानम् प्रजाः प्रजास्तस्मात् प्रजा इति तस्मादपः अप उप उपसृजति सृजति प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठित्यादि प्रतिष्ठित्यै यदध्वर्युः अध्वर्युरलग्नौ अनग्नाबाहुतिम् आहुतिम् जुहृयात् आहुतिमित्याहुतिम् जुहृयादन्धः अन्धो अध्वर्युः अध्वर्युः स्यात् स्याद्रक्षाकुंसि रक्षाकुंसि यज्ञम् यज्ञकुम्हन्युः अन्युर्हिरण्यम् हिरण्यमुपास्य उपास्य जुहोदि उपास्येत्युपास्य जुहोत्यग्निवति अग्निवत्येव अग्निवतीत्यग्निवति एव जिहोति जिहोतिना दि नान्धः अन्धो अध्वर्युः अध्वर्युर्भवति भवति न यज्ञम् यज्ञम् रक्षागुंसि रक्षागुंसि घ्नन्ति जिघर्मि जिघर्म्यग्निम् अग्निम् मनसा मनसा घृतेन घृतेनेति इत्याह आह मनसा मनसा हि पुरुषः पुरुषो यज्ञम् यज्ञमभिगच्छति अभिगच्छति प्रतीक्षन्तम् अभिगच्छतीत्यभिगच्छति प्रतीक्षन्तम् भुवनानि प्रतिक्षन्तमिति प्रतीक्षन्तम् भुवनानि विश्वाः विश्वेति इत्याह आह सर्वम् सर्वगुम्हिष एष प्रत्यङ् प्रत्यङ्क्षेति क्षेति पृथुम् पृथम् तिरश्चा तिरश्चा वयसा वयसा बृहन्तम् बृहन्तमिति इत्याह आहाल्पः अल्पो हि एषः एष जातः जातो महान् महान् भवति भवति व्यतिष्ठम् युतिष्ठमन्नम् अन्नकम् रभसम् रभसम् विधानम् विधानि इत्याह आहाम् अन्नमेव एवास्मै अस्मै स्वदेति सुदेति स्वदेद सर्वम् सर्वमस्मै अस्मै स्वदतेजे स्वदतेजः यदेवम् एवम् वेद वेदा, वेदा आत्त्वा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 आहापचितिम् अपचितिमेव अपचितिमित्यपाचितिम् एवास्मिन् अस्मिन् दधाति तथात्यपचिमान् अपचितिमान् भवति अपचितिमान् इत्यपचितिमान् भवति एवम् एवम् वेद मनसा तु त्वयि वयि ताम् आप्तुमर्हति अर्हति याम् यामद्ध्वर्युः अध्वर्युरनग्नौ अनग्नाबाहुलिम् आहुतिम् जुहोति आहुदिमित्याहुलम् जुहोति मनस्वतीभ्याम् मनस्वतीभ्याम् जुहोति जुहोत्याहुत्योः आहुत्योरात्यै आहुत्योरित्याहुत्योः आप्त्यै त्वाभ्याम् प्रतिषित्यै प्रतिशित्यै यज्ञमुखे यज्ञमुखे प्रतिश्यत्यादि प्रतिश्यत्यै यज्ञमुखे यज्ञमुखे वै यज्ञमुखे यज्ञमुख इति यज्ञमुखे यज्ञमुखे वै क्रियमाणे क्रियमाणे यज्ञम् यज्ञकम् रक्षाकुंसि रक्षाकंसिधाकम् सन्ति विधाकुम्सन्त्येतर्हि एतर्हि खलु खलु वै वा एतत् एतद्यज्ञमुखम् यज्ञमुखम् यर्हि यज्ञमुखमिति यज्ञामुखम् यर्थेनः आहुरिष्टुते आहुदरिद्राहुतिः रष्टुते परि परिलिखति लिखति रक्षसाम् रक्षसामपहत्यै अपहत्यै तिसृभिः अपहत्या इत्यपाहत्यै तिसृभिः परि तिसृभिरि तिसृभिः परिलिखति लिखति त्रिवृत् त्रिवृद्वै त्रिभृति वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अग्निस्तस्मात् तस्माद्रक्षांसि परिक्षागस्य वा अपहन्ति हन्दिगायत्र्या गायत्र्यापरि परिलिखति लिखति तेजः तेजो वै वै गायत्री गायत्री तेजसा तेजसैव ते एैनम् एनम् परि परिगृह्णाति गृह्णाति त्रिष्टुभाः त्रिष्टुभापरि परिलिखति लिखतीन्द्रियम् इन्द्रियम् वै वै षु त्रिष्टुतिन्द्रियेण एवैनम् एनम् परि परिगृह्णादि गृह्णात्यनष्टुभाः अनष्टुभा परि अनष्टुभेद्यनोस्तुभाः परिलिघरि लिखर्त्यनष्टव अनष्टप्सर्वाणि अनष्टवित्यनोत्सु सर्वाणि छन्दागंसि छन्दांसि परिभोः <gonaut> परिभोः पर्याप्त्यै परिभोरिति मलिभोः पर्याप् मध्यतः पर्याप्त्या इति मलि आप्यै मध्यतोऽनुष्टुभाः अनष्टुभावाग् अनष्टभेद्यनोस्तुभा वा ड्व वा अनुष्टुप् अनुष्टुप्तस्माद् अनुष्टुप् इत्यनोष्टुप् तस्मान्मध्यतः मध्यतो वाचा वाचा वदामः वदामो गायत्र्या गायत्र्या प्रथमयापरि परिलिखरि लिखत्यथा अथानुष्टुभाः अनुष्टुभाथ अनुष्टुभेत्यनोस्तुभा अथ तिष्टुभाः तिष्टुभाधेदः तेजो वै वै गायत्री गायत्री यज्ञः यज्ञोऽनुष्टुक् अनुष्टुकिन्द्रियम् अनुष्टुगेत्यनोस्तु इन्द्रियम् दृष्टक् तिष्टुप्तेजसा तेजसा चैव देवेन्द्रियेण इन्द्रियेण च त्वोभयतः उभयतो यज्ञम् यज्ञम् परि परिगृह्णाति गृह्णातीति गृह्णाति देवस्य त्वा त्वा त्वा सवितोः सविदुः प्रसवे इति खनरि खनरि प्रसूवृत्ति प्रसूवृत्या प्रसूत्यादिति प्रासूत्ति अथो धूमम् अथो इति धूममेव एवैतेन एतेन जनयति जनयति ज्योतिष्पन्दम् ज्योतिष्पन्दम् त्वाग्ने अग्ने सुप्रतीकम् ीकम् इत्याह आह ज्योतिः ज्योतिरेव एवैतेन एतेन जनयदि जनयति सः सोऽग्निः अग्निर्जातः जातः प्रजाः प्रजाश्रिता प्रजायति प्राजाः श्रुतार्पयत् आर्पयत्तम् तम् देवाः देवार्धर्चेन अर्धर्चेनाश्रमयन् अर्धर्चेनेत्यर्धर्चेन अशमयन् शिवम् प्रजाभ्योऽवम् सन्तम् प्रजाभ्यैरिप्राजाभ्यः अहिवम् सन्तमिति इत्याह आह प्रजाभ्यः प्रजाभ्य एव प्रजाभ्यैरिप्राजाभ्यः एवम् केनकम् शमयति शमयति भ्याम् खलति खलति प्रतिष्ठित्यै प्रतिष्ठित्या अपाम् प्रतिष्ठत्या इति प्रतिष्ठित्यै अपाम् असीति इति पुष्करवर्णम् पुष्करवर्णमा पुष्करवर्णमिति पुष्करवर्णम् आहरति हरत्यपाम् अपाम् वा एतत् एतत् पृष्ठम् पृष्ठम् यत् यत्पुष्करवर्णम् रूपेण पुष्करवर्णमिति एवैनत् एनदा आहरति हरति पुष्करवर्णेन पुष्करवर्णेन सम् पुष्करवर्णेनेति पुष्करावर्णेन सम्भरति भरति योनिः योनिर्वैवामेः पुष्करवर्णम् पुष्करवर्णम् स योनिम् पुष्करवर्णमिति पुष्करावर्णम् एवाग्निम् अर्ज्ञकम्सम् सम्भरति भरति कृष्णार्जुनेन कृष्णार्जुनेन सम् कृष्णार्जुनेनेति कृष्णार्जनेन सम्भरति भरति यज्ञः यज्ञो वै यज्ञेनैव एव यज्ञम् यज्ञकंसम् सम्भरति भरते यत् यद्ग्राम्याणाम् ग्राम्याणाम् चर्मणा चर्मणा सम्भरेत् सम्भरेद्ग्राम्यान् सम्भरेति राम्यान् पशून् पशोंशिता श्रुतार्पयेत् अर्पयेत् कृष्णार्जुनेन कृष्णार्जुनेन सम् कृष्णार्जुनेनेति कृष्णार्जुनेन सम्भरति आरण्यानेव एव पशून् पशोंशिता श्रुतार्पयति अर्पयेत् तस्मात् तस्मात् समावत् समावत्पशूनाम् पशूनाम् प्रजायमानानाम् रजायमानानामारण्याः रजायमानानाविजित्राजायमानानाम् आरण्याः पशवः पशवः कनीयागुं सः ृतालो मतः लो मतः सम्भरति भरत्यम् कृष्णार्जिनम् कृष्णार्जुनम् च कृष्णार्जनमिति कृष्णार्जनम् च पुष्करवर्णम् पुष्करवर्णम् च पुष्करवर्णमिति पुष्करावर्णम् च सम् सर्गसृणादि सृणादियम् इयम् वै वै कृष्णार्जुनम् कृष्णार्जुनमसौ असौ पुष्करवर्णम् पुष्करवर्णमाभ्याम् पुष्करवर्णमिति पुष्करवर्णम् आभ्यामेव एवैनम् येन उभयतः उभयतः परि परिगृह्णादि गृह्णात्यग्निः अग्निर्देवेभ्यः देवेभ्यो लिलायत लिलायजतम् तमथर्वा अथर्वान् अन्वपश्यत् अपश्यदथर्वा अथर्वा त्वाप्रथमः प्रथमो निः इरमन्थत् अमन्थदग्नेः अग्नैः इत्याह आहयः य एव देवैनम् एनमन्वपश्यत् अन्वपश्यतेन अन्वपश्यदिनो अपश्यत् तेनैव एवैनम् येन हंसम् सम्भरति भरति त्वाम् त्वामग्ने अग्ने पुष्करात् पुष्करादधि अधिति इत्याह आह पुष्करवर्णे पुष्करवर्णेः पुष्करवर्णैः पुष्करवर्णे सेनम् एनमुपश्रितम् उपश्रितमविन्दत् उपश्रितमित्युपाश्रितम् अविन्दत्तम् तमो कृत्वा वा दध्यङ् दभ्यङ् ऋषिः ऋषिरिति इत्याह आहदभ्यङ् दध्यङ् वै वा आथर्वणः आथर्वणस्तेजस्वी तेजस्यासीत् आसीत् तेजः एव एवास्मिन् अस्मिन् दधाति दधाम् तमो उत्वा पाच्यो वृषाः वृषेति इत्याह आहपूर्वम् पूर्वमेव एोदितम् उदितमुत्तरेण उत्तरेणाभि उत्तरेणेत्युतोत्तरेण अभिवृणादिचदशभिः चतसृभिः सम्भिरिः सम्भरति भरति चत्वारि चत्वारि छन्दागुंसि छन्दागुंसि छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एव गायत्रिभिः रायत्रिभिर्ब्राह्मणस्य ब्राह्मणस्य गायत्रः राजत्रो हि इब्राह्मणः ब्राह्मणस्त्रिष्टुग्भिः त्रिष्टुग्भिः राजन्यस्य त्रिष्टभिरिति त्रिष्टगभिः राजन्यस्य त्रैष्टुभः त्रैष्टुभो हि इराजन्यः राजन्योऽयम् लङ्कामयेत कामयेत वसीयान् वशीयान् स्यात् वसी वसी स्यादिति इत्युभयीभिः उभयैभिस्तस्य तस्य सम् सम्भरेत् भवेत्तेजः तेजश्च चैव एवास्मै अस्मायम् इन्द्रियम् च समीची समीची दधाति समीचीति समीची दधात्यष्टाभिः अष्टाभिः सम्भरति भरत्यष्टाक्षरा अष्टाक्षरा अष्टाक्षरे दष्टा अक्षरा नायत्री गायत्रः गायत्रोऽः अग्निर्यावान् यावादेव एवाग्निः अन्यस्तम् सर्वसम् सम्भरति भरति सीद सीदहोदः इत्याह आह देवता एव अस्मै सम् सर्वम् साधयति साधयति निहोता इति मनुष्यान् मनुष्यान् सीदस्व सीदस्वेति इति रयाकुंसि रयापुंसि जनिष्व जनिष्वा हि जयन्यः जैन्यो अग्रे अग्रे अह्नाम् अह्नामिति विहिताः आह देवमनुष्यान् देवमनुष्यानेव देवमनुष्यानिति देवामनुष्यान् एवास्मै अस्मै सकंसन्नान् सकंसन्नान् प्रंसन्नानिति संसन्नान् प्रजनयति जनयतीति जनयति क्रूरमिव इवै वा अस्याः अस्या एतत् एतत्करोति करोति यत् यत्खनति खनद्यपः अपौव उपसृजति सृजत्यापः आभो शान्ताः शान्ताः शान्ताभिः शान्ताभिरेव एवास्यै अस्यै शुतम् शुतकम् शमयति शमयति सम् सन्देहे ते वायुः इत्याह आह प्राणः प्राणो वै प्राणेति प्राणः प्राणेनैव प्राणेनेति एवास्यै अस्यै प्राणम् प्राणगुंसम् प्राणमिति प्राणम् सन्दधाति दधाति सम् सन्धेः ते वायुः वायुरिति इत्याह आहतस्माद् तस्माद्वायुप्रच्युता वायुप्रच्युता दिवः वायुप्रच्युतेति यो वृष्टिः वृष्टिरीर्ते ईर्ते तस्मै तस्मै च स देवि देवि वषड् वषडस्तु अस्तु तुभ्यम् तुभ्यमी इत्याह आह षड् षड्वै वा ऋतवः तस्मात् तस्मात्सर्वान् सर्वा ऋतोन् ऋतोनवर्षति वर्षति यत् यद्वषट्कुर्याद् वषट्कुर्याद् जातयामाषट्कुर्यादिति यातगामास्य यातगामेति याताः अस्य वषट्कारः षट्कारः स्यात् षट्कार इति वषटकारः स्याद्भिर्यन्नषट्कुर्यात् अषट्कुर्याद्रक्षागुंसि षट्कुर्यादिति वषट् कुर्यात् रक्षागुंसि यज्ञम् यज्ञगम् हन्युः अन्युर्वट् वडिति इत्याह आह परोक्षम् परोक्षमेव परोक्षमिति परः अक्षम् एव वषट् करोति करोति न अस्य यातयामा यातयामा वषत्कारः यातयामेति यातायामा वषट्कारो भवतिषट्कार इति वषट्कारः भवति न यज्ञम् यज्ञम् रक्षागुंसि रक्षागुंसि नन्दि नन्दि सुजातो ज्योतिषा सुजात सुजातः ज्योतिषा सः सहेति इत्यनुष्टुभा अनुष्टुभोप अनष्टुभेत्यनौस्तुभा उपनश्यति नश्यत्यनुष्टुप अनष्टुप् सर्वाणि अनुष्टभेत्यनौस्तुभ सर्वाणि छन्दागुंसि छन्दागंसि छन्दागुंसि छन्दागुंसि खलु खलु वै वा अग्नेः अग्नेः प्रिया प्रिया तनोः तनोः प्रियया एवैनम् एनम् तनुभा तनुभापरि परिदधाति दधाति वेदुकः वेदुको वासः वासो भवति भवति यः य एवम् एवम् वेद वेदवारुणः वारुणो वै वा अग्निः अग्निरुपनद्धः उपनद्धौत् अधा, उपन उपनद्ध इत्युपानद्धः उदो उतिष्ठ तिष्ठस्वग्धर सद्भरोर्ध्वः स्वध्वर स्वध्धर इति सोऽध्वर ऊर्ध्वौ ऊषुणः सुनः न ऊतये ऊतय इति सावित्रीभ्याम् सावित्रीभ्यामुत् वृत्तिष्ठति तिष्ठति सवितृप्रसूदः सवितर्प्रसूद एव सवितृप्रसूद इति सवितृप्रसूदः एवास्य अस्योर्ध्वाम् ऊर्ध्वाम् वर्णमेनिम् वरुणमेनिमुत् वर्णमेनिमिति वर्णमेनिम् उत्सृजरिद्वाभ्याम्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 चारुर्भृतः विभृत ओषधीषु विभृत इति विभृतः ओषधी श्री इत्याह आह यदा यदा हि ह्येतम् वेदम् विभरन्ति विभरन्त्यथ विभरन्तीति विभरन्ति चारुतरो भवति चारुतर इति चारुतरः भवति प्रमातृभ्यः मातृभ्यो अधि मातृभ्य इति मातृभ्यः अधिकणिकृत कणिकृतद्गाः आयी इत्याह आ औषधयः ओषधयो वै वा अस्य अस्य मातरः मातरस्ताभ्यः ताभ्य एवैनम् एनम् प्रचावयति शिरो भव वीड्वङ्गः वीड्वङ्ग इति वीड्वङ्ग इति वीडोभङ्गः इति गर्दभे गर्दभा आसादयति साधयति सम् सन्नश्यति नश्यत्येव एवैनम् एनमेतया एतया स्थेम्ने स्थेम्ने गर्दभेन गर्द सम्भरति भरति तस्मात् तस्माद्गर्दभः गर्दभः पशूनाम् पशूनाम् भारभारितमः भारभारितमागर्दभेन भारभारितम इति भारभारीतमः गर्दभेन सम् सम्भरति भरति तस्मात् तस्माद्गर्दभः गर्दभोऽपि अप्यनालेशे अनालेशे अनालेश इत्यनालेशे अत्यन्यान् अन्यान्पशून् पशोन्मेद्यति मेद्यत्यन्नम् अन्नगम् हि एनेनार्कम् अर्ककम् सम्भरन्ति सम्भरन्ति गर्दभेन सम्भरन्तीति सम्भरन्ति गर्दभेन सम् सम्भरति भरति तस्मात् तस्माद्गर्दभः गर्दभोद्विरेताः द्विरेताः सन् द्विरेता इति द्विरेताः सङ्गनिष्ठम् कनिष्ठम् पशूना पशूनाम्र प्रजायते जायते अग्निः अग्निर्हि ह्यस्य अस्य योनिम् योनिम् निर्दहति निर्दहति प्रजासु मयि प्रजास्विति प्राजासु वा एष एष एतर्हि एतर्ह्यारूढः आरुढः सः आरुढ इत्यारूढः स ईश्वरः ईश्वरः प्रजाः प्रजाश्रुजा प्रजा, प्रजाश प्रजा इति प्राजाः श्रुता प्रदहः प्रदः शिवः प्रदः इति प्राधः शिवोभव प्रजाभ्यः प्रजाभ्यैदि प्रजाभ्यैदि प्राजाभ्यः इत्याह आह प्रजाभ्यः प्रजाभ्य एव प्रजाभ्यैः प्राजाभ्यः एवैनम् एनकं शमयति शमयति मानुषेभ्यः मानुषेभ्यस्त्वम् त्वमङ्गिरः अङ्गिर इति इत्याह आह मानव्यो हि के प्रजाः प्रजामा प्रजाति प्राजाः माद्यावापृथिवी द्यावापृथिवी अभि या शोशु शोशु वा पृथिवीद्या वा पृथिवी अभिषोषुचः शोषुचो अन्तरिक्षम् मा वनस्पदीनि अनस्पदीनिति आहैभ्यः एभ्य एवैनम् एनम् लोकेभ्यः लोकेभ्यः शमयति दि शमयति जी वाजी कनिक्रदत् अनिक्रददि इत्याह आहबाजी वाजीः ह्येषः एष नानदत् नानद्रासभः रासभः पत्वाति इत्याह आहरासभः रासभयति इति हि ह्येतम् एतऋषयः ऋषयोवदन् अवदन्भर आयुरेव एवास्मिन् अस्मिन् दधाति दधाति तस्मात् तस्माद्गर्दभः गर्दभः सर्वम् सर्वमायुः आयुरेति एति तस्मात् तस्मात् दभे, दभे पुरा पुरायुषः आयुषः प्रणीते प्रणीते बिभ्यति प्रमीद इति प्रमीदे वृषाज्ञम् अग्निम् वृषणम् वृषणम् भरन् भरन्नि इत्याह आहवृषाः वृषाहि ह्येषः एष वृषाः वृषाग्निः अग्निरपाम् अपाम् गर्भम् गर्भगम् इत्याह आहापाम् अपागम् हि ह्येषः एष यदग्निः अग्निरग्नेः र्घः आयाहि याहि भीतयेः वीतयति जै, इति वै इमौ इमौ लोकौ लोकौ वि व्यैताम् एतामन्येः अर्घः आजाहि जाहि भीतयेः वीतयति जै, इति यत् यदाह आहयोः वेत्यै प्रच्युतः वेत्या प्रच्युतो वै प्रच्युतै प्राच्युतः वा एषः एष आयतनात् आयतनादगतः आयतनादित्या आयतनात् प्रतिष्ठा प्रतिष्ठापुंसः प्रतिष्ठाविधि प्रतिष्ठा स एतर्हि एतस्य धर्यम् अध्वर्यम् च यजमानम् यजमानम् च ध्यायति ध्यायत्कृतम् कृतकम् सत्यम् सत्यमिति इत्याहेयम् कृतमसौ असौ सत्यम् सत्यमनयोः अनयोरेव एवैनम् एनम् प्रति प्रतिष्ठापयति स्थापयति आर्तिमा आर्च्छति यच्छत्यध्वर्युः अध्वर्युर्न न यजमानः यजमानो वरुणः वरुणोऽपि यजमानमभि अभ्या अ इति यदग्निः अग्निरुपनद्धः उपनद्ध ओषधयः उपलद्ध इत्युपानद्धः ओषधयः अग्निमेतम् एतमिति इत्याह आहशान्त्यै शान्त्यैर्यस्यन् यस्यन्विश्वा आह यस्यन्निदिवि अस्यन् विश्वा अमतीः अमतीरराजैः रादे अराजेरिति इत्याह आह रक्षसा प्रक्षसामवहत्यै अपहत्यै निषीदन् अवहत्या इत्यपाहत्यै निषीदन्नः निषीदन्निति निषीदन् नो अप अपदुर्मदिम् दुर्मदीम्हनद् दुर्मदिमितिम् दुर अनदि इत्याह आह प्रतिष्ठित्यै प्रतिष्ठित्या ओषधयः प्रतिष्ठित्या इति प्रतिष्ठित्यै ओषधयः प्रति प्रतिमोदध्वम् एनमिति इत्याह आहौषधयः ओषधयो वै वा अग्नेः अग्नेर्वाधेयम् भागधेयम् ताभिः भागधेयमिति भागाधेयम् ताभिरेव एवैनम् एनम् समर्थयति अर्थयति पुष्पावतीः पुष्पावतीः सुपिपलाः पुष्पावतीरिति पुष्पावतीः सुपि इति सुपि इति सोऽपिपलाः इत्याह आहतस्मात् तस्मादौषधयः ओषधयः फलम् फलम् गृह्णन्ति गृह्णन्त्ययम् अयम् वः गोगर्भः गर्भ ऋत्युयः ऋत्ययः प्रत्लम् प्रत्लम् सधस्थम् अधस्थमा अधस्थमिति सधास्थम् आसदत् असदी इत्याह आहयाभ्यः याभ्य एवैनम् एनम् प्रक्ष्यापयति प्रक्षावयति तासु प्रक्षावयति इति एवैनम् एनम् प्रति प्रतिष्ठापयति स्थापयति द्वाभ्याम् द्वाभ्यामुपावहरति उपावहरति प्रतिष्ठत्यै उपावहरति इत्युपावहरति प्रतिष्ठित्या इति वारुणो वै वा अग्निरुपलब्धः उपलब्धो वि उपलब्ध इत्युपालब्धः विपाचसा पाचसेति इति विस्रवंशयति स्रयंशय सवितर्प्रसूदः सवितर्प्रसूद एवास्य अस्य विषूचीम् विषूचीम् वरुणमेनिम् वरुणमेनिम् वि वरुणमेनिमिति वर्णमेनिम् विसृजति सृजत्यपः अप उप आभोवि यि शान्ताः शान्ताः शान्ताभिः एवास्य अस्य शुकम् शुचकम् शमयति शमयति तिसृभिः ऋषुभिर्वा षभिरतिसृभिः उपश्रजति त्रिजति त्रिवृत् त्रिवृद्वै त्रिवृदिति त्रिवृत् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अग्निस्तस्य तस्य शुकम् शुतकम् शमयति शमयति मित्रः मित्रः सकम् सृज्य सघुंसृत्य पृथिवीम् सकंसृज्येति संसृज्य पृथिवीमिति वै शिवः शिवो देवानाम् देवानाम् तेन तेनैव एवैनम् एनकंसम् सकुंसृजति सृजति शान्ति शान्ति यद् यद्ग्राम्याणाम् राम्याणाम् पात्राणाम् पात्राणाम् कपालैः कपालैः सकम् सृजेत् ग्राम्याणि सकम् सृजेदिति ग्राम्याणि पात्राणि पात्राणि शिता सुदार्पयेत् अर्पये कर्मकपालैः कर्मकपालैः सम् कर्मकपालैकर्माकपालैः सघम् सृजति दे सृजतेनि एतानि वै वा अनुपजीवनीयानि अनुपजीवनीयानि तानि अनुपजीवनीयानि तजीवनीयानि तान्येव एव शुचा शुचार्पयति अर्पयति शर्कराभिः शर्कराभिः सम् सकम् सृजति सृजति सृजैः धृत्या अधोः अथो शन्त्वाय अथोरित्यथोः क्षन्त्वाया च लोमैः शन्त्वायदिषाम् अजलोमैः सम् अजलोमैरित्यजा लोमैः सर्वम् सृजति सृजग्ेषा येषा वै वा प्रियातनोः यदजा अजा प्रियजाः प्रियैवनुवाह तनुवासंजते सृजत्यथोः अथो तेजसा अथो तेजसा कृष्णार्जुनस्य कृष्णार्जुनस्य कृष्णार्जुनस्य यदि कृष्णार्जुनस्य लोमभिः सकं सृजते सृजतज्ञः यज्ञो वै वै कृष्णार्जनं कृष्णार्जनं यज्ञेन कृष्णाजनमिति कृष्णार्जुनं सृजते सृजः रुद्राः संहृत्य संहृत्य पृथिवीम् संहृत्येति सम्भृत्य पृथिवीमिति नित्याः आहीताः एतावै वा एतम् एतम् देवताः देवता अग्रे अग्रे सम् समभरन् अभरन् ताभिः ताभिरेव एवैनम् एन पुंसम् सम्भरति भरति मघस्य मघस्य शिरः शिरोऽसि असीति इत्याह आहयज्ञः यज्ञो वै वै मघः मघस्तस्य तस्यैतत् एतच्छिरः शिरो यदुखा उखा तस्मात् तस्मादेवम् एवमाह यज्ञस्य पदे पदे पदे इति पदे स्थ इति इत्याह यज्ञस्य हि ये एते पदे एते इत्येते आदे आदे पदे अथोः पदे इति पदे अथो प्रतिष्ठित्यै अथो इत्यथोः प्रतिष्ठित्यै प्रतिष्ठत्य इति प्रतिष्ठित्यैः प्राण्याभिः अन्याभिर्यच्छति यच्छक्यनु अन्मन्यैः अन्यैर्मन्द्रयते मन्द्रयते मिथुनत्वाय इथनत्वाय त्र्युद्धिम् इथुनत्वाय इति करोति त्र्युद्धिमिति त्रिबुद्धिम् करोति त्रयः त्रय इमे इमे लोकाः लोका येषाम् लोकानाम् लोकानामाप्ति आप्ति छन्दोभिः छन्दोभिः करोति छन्दोभ्यति छन्दहाभिः करोति वीर्यम् वै वै छन्दागुंसि छन्धागंसि वीर्येण एवैनाम् एनाम् करोति करोति यदुषा इदुषा बिलम् बिलम् करोति करोति व्यावृत्यै व्यावृत्या इयतीम् व्यावृत्यावृत्यै इयतीम् करोति करोति प्रजापजना प्रजापजना यज्ञमुखेन प्रजापजनेति प्रजापजना यज्ञमुखेन संमिताम् यज्ञमुखेन यज्ञमुखेन संमिताम् द्विस्तराम् संमितामिति साम्मिताम् विस्तराम् करोति विस्तरामिति करोति द्या वा पृथिव्योः या वापृथिव्योर्दोहाय या वा पृथिव्योर्द्यावा पृथिव्योः दोहाय करोति चतुस्तनामिति चतुःस्तनाम् करोति पशूनाम् पशूनाम् दोहाय दोहायाष्टास्तनाम् अष्टास्तनाम् करोति अष्टास्तनामित्यष्टास्तनाम् करोति छन्दसा छन्दसाम् दोहाय दोहाय नवाश्रिम् नवाश्रिमभिजरतः नवाश्रिमिति न वा अश्रिम् अभिजरतः कुर्यात् अभिजरदैत्यभिजरतः कुर्यात् त्रिवृतम् त्रिवृतमेव त्रिवृतमिति प्रीवृतम् एव वज्रम् वज्रम् संहृत्य संहृत्यभ्रातृव्याय संभृत्यैतसंभृत्य भ्रातृव्याय प्रहरति हरतिस्तृत्यै स्तुत्यै कृत्वाय कृत्वाय सा महीम् महीमुखा मुखामिति इति देवतासु देवतास्वेव एवैनाम् एनाम् प्रति प्रतिष्ठापयति स्थापयतीति स्थापयति सप्तभिर्धूयति सप्तभिरिति सप्ताभिः सप्ता सप्त वै वै शीर्षण्याः प्राणाः प्राणाश्रः प्राणा इति प्राणाः यज्ञस्य यदुखा उखा शीर्षन् एव यज्ञस्य यज्ञस्य प्राणान् दधाति प्राणान् इति प्राणान् दधाति तस्मात् तस्मात् सप्त सप्तशीर्षन् शीर्षम् प्राणाः प्राणा अश्वसकेन प्राणा इति प्राणाः अश्वशकेन धूपयति अश्वशकेन श्वासकेन धूपयति प्राजावत्यः प्राजापत्योपयि प्राजापत्य अश्वसयो नित्वाय सयोनित्वाय अदिभिः सयो नित्वा एति सयो नित्वाय अदितिस्वा तेति इत्याह आहेयम् इयम् वै वा अदिभिः अदितिरदित्या अदित्यैव एवादित्याम् अदित्याम् घनदि खनत्यस्याः अस्या अक्रोरङ्गाराय अक्रोरङ्गारायण अक्रोरङ्गारायत्यक्रोरङ्गाराय न हि विश्वः स्वस्वाम् देवानाम् त्वा पत्नीः पत्नीरिति इत्याह आह देवानाम् देवानाम् वै क्वा एताम् एताम् पत्तयः प्रत्ययोग्रे अग्रे कुर्वन् अकुर्वन्ताभिः ताभिरेव देवैनाम् एनाम् दधाति दधाति धिषणाः दृषणा स्वाेति विद्याः आहविद्याः विद्या वै वै दृषणाः दषणा एनामभि अभिन्धे हे ग्नाः ग्नास्वाह त्वेदि इत्याह आहछन्दांसि छन्दागुंसि वै वै ग्नाः ग्नाश्चन्दोभिः छन्दोभिरेव छन्दोभिरि छन्दःभिः एवैनाम् एनाविश्रपयति श्रपयति वरोहोत्रयः वरोहत्रयस्वा त्वेदि इत्याह आहोत्रा होत्रा वै वरोत्रयो होत्राभिः होत्राभिरेव एैनाम् एनाम् वचति प्रसिदिजनयः जनयस्त्वा त्वेति इत्याह आहदेवानाम् देवानाम् वै वै पत्नीः पत्नीर्जनयः जनयस्ताभिः ताभिरेव देवैनाम् एनाम् पचति प्रचितिषड्भिः षड्भिः पचति षड्भिरितिषट्भिः प्रचतिषट् षड्वै वा ऋतवः ऋतव ऋतुभिः ऋतुभिरेव देवैनाम् एनाम् रोचति पचतिद्भिः द्विपचन्तु पचन्द्विः इत्याह आह तस्मात् तस्माद्भिः विः संवत्सरस्य संवत्सरस्य सस्यम् संवत्सरस्येति संवत्सरस्य सस्यम् पच्यते पच्यते वारुणी वारुण्युखा मुखाभीद्धाः अभीद्धा मैत्र्याः देवस्त्वाः सवितो ऋध्वपदौत्प्रसूदः सवितृप्रसूद एव समितृप्रसूद इति सवितृप्रसूदः एव अपद्यमाना पृथिवी पृथिव्याशाः आशादिशः आवृणे तस्मादग्निः अग्निः सर्वाः सर्वादिशः the उत्तिष्ठ तिष्ठबृहती बृहती भवोर्ध्वा ओर्ध्वा तिष्ठ तिष्ठध्रुवा ध्रुवा त्वम् इत्याह आह प्रतिष्ठत्यै प्रतिष्ठत्या असुर्यम् प्रतिष्ठत्या इति प्रतिष्ठित्यै असुर्यम् पात्रम् पात्रमा आच्छन्नम् अनाच्छन्न वा अनाच्छन्नमित्यना आच्छन्नम् आच्छणति देवत्रा देवत्रागः देवत्र इति देवात्रा अकरजक्षीरेण अजक्षीरेण अजक्षीरेण आच्छ्रणत्ति शृणत्य एतद्वयः प्रयोजत् यद क्षीरम् अजक्षीरम् परमेण अजक्षीरमित्यरा क्षीरम् परमेणैव एवे एनाम् वयसा अयसा आच्छ्रुणत्ति शृणत्ये व्यावृत्ति व्यावृत्ति छन्दोभिः व्यावृत्या इदि आवृत्ति छन्दोभिरा छन्दोभिरिति छन्दहाभिः आश्रृणति शृणति छन्दोभिः छन्दोभिर्वै छन्दोभिरिति छन्दहाभिः वा एषा एषा छन्दोभिरतिछन्दःभिः एव छन्दाकंसि छन्दाकस्या आच्छृणत्य शृणतीति शृणत्यति एकविंशत्यामाशैः एकविंशत्येत्येका विपुंसत्याः माषैः पुरुषशीर्षम् पुरुषशीर्षमक्ष पुरुषशीर्षमिति पुरुषा शीर्षम् अर्क्षैति एत्यमेध्याः अमेध्या वै वै माषाः माषा अमेध्यम् अमेध्यम् पुरुषशीर्षम् पुरुषशीर्षममेध्यैः पुरुषशीर्षमिति पुरुषा शीर्षम् अमेध्यैरेव एवास्य अस्यामेध्यम् अमेध्यम् निरवदाय निरवदाय अमेध्यम् निरवदायतिनिः अवदाय मेध्यम् कृत्वा कृत्वाहरति आहरति हरत्येकविपुंशतिः एकविपुंसतिर्भवन्ति एकविपुंशतिरित्येका विपुंशतिः भवन्त्येकविपुंसः एकविपुंशो वै एकविपुंस इत्येका विपुंसः वै पुरुषः पुरुषः पुरुषस्य पुरुषस्याप्त्यै आप्त्यै व्यर्थम् व्यर्थम् वा एतत् एतत्प्राणैः प्राणैरमेध्यम् प्राणैरति प्राणैः अमेध्यम् यत् यत्पुरुषशीर्षम् पुरुषशीर्षम् सप्तधा पुरुषशीर्षमिति पुरुष शीर्षम् सप्तधा वितृण्णाम् सप्तधेति सप्ताधा वितृण्णाम् वल्मेवपाम् वितृण्णामति वेतृण्णाम् वल्मेकपपाम् प्रति वल्मेवपामिति प्रतिनि यदधाति दधाति सप्त वै वै शीर्षण्याः प्राणाः प्राणाः प्राणैः प्राणादिप्राणाः प्राणैरेव प्राणैर्प्राणैः एवैनत् केनत्सम् समर्थयति अर्थयति मेध्यत्वाय मेऽध्यत्वाय याबन्धः मेऽध्यत्वा येति मेध्यात्वाय या वन्धो वै वै मृत्युबन्धवः मृत्युबन्धवस्तेषाम् मृत्युबन्धव इति मृत्यो बन्धवः तेषाम् यमः यमाधिपत्यम् आधिपत्यम् परि आधिपत्यमित्याधिपत्यम् परियाय यायमगाथाभिः यमगाथाभिः परि यमगाथाभिरिति यमागाथाभिः परिगायदि गायति यमाद् यमादेव एवैनत् केन सर्वे तिसृभ्यः परि तिसृभिरि तिसृभिः परिगायति गायति त्रयः त्रय इमे इमे लोकाः लोकायेभ्यः एभ्य एवैतत् एनल्लोकेभ्यः लोकेभ्यो वृन्दे वृन्दे तस्मात् तस्माद्गायते गायतेन न देयम् देयम् गाथा गाथा वृन्दे यज्ञिभ्यः अग्निभ्यः पशून् अग्निभ्य यज्ञेभ्यः पशूना आलभते लभते कामाः कामा वै वा अग्नयः अग्नयः कामान् कामाने वा एवाव अवरुन्धे रुन्धेत् यत्पशून् पशोन्न आलभेद आलभेतानवरुद्धाः आलभेदयज्ञ आलभेद अनवरुद्धास्य अनवरुद्धा इत्यनवारुद्धाः अस्य पशवः पशवस्योः शर्यर् यत्पर्यज्ञकृतान् पर्यज्ञकृतानुत्सृजेत् पर्यज्ञकृतानि पर्यज्ञीकृतान् उत्सृजेत्यज्ञवेषसम् उत्सृजेत्युत्सृजेद् यज्ञवेषसम् कुर्यात् यज्ञवेषसमिति यज्ञावेषसम् परिजाप्य यत्सर्गस्थापयेत् सर्गस्थापयेत् जातयामानि सर्गस्थापयेदिति समम् स्थापयेत् यातयामानि शेषाणि यातयामानीति यातायामानि शेषाणि स्युः श्रुर्यत् यत्पशोन् पशोनालभते आलभतेन आलभत इत्यालभते तेनैव एव पशोन् पशोनव अवरुन्धे रुन्धे यत् यत्पर्यज्ञिकृतान् पर्यज्ञिकृतान्सृति पर्यज्ञकृतानिति पर्यज्ञीकृतान् उत्सृति शीर्षणाम् उत्सृति इत्युत् सृजति शीर्षणामयातयामत्त्वाय अजातयामत्वाय प्राजापत्येन अयातयामत्त्वाययामाय प्राजापत्येन सम् प्राजापत्येन यत् प्राजापत्येन सद्गस्थापयति How many did you have? यज्ञो वै वै प्रजापतिः प्रजापजलज्ञे प्रजापजलित्प्रजापतिः यज्ञ एव यज्ञम् यज्ञम् प्रति प्रतिष्ठापयति स्थापयति प्रजापतिः प्रजापतिः प्रजाः प्रजापजलित्प्रजापतिः प्रजा असृजत प्रजायरिप्राजाः असृजतसः स निरिचानः निरचालो मन्यत अमन्यतसः स एताः एता आप्रीः आप्रीरपश्यत् आप्रीः अपश्यक्ताभिः ताभिर्वै वै सः समुखतः आत्मानम् हि आत्मानमा आप्रीणीत अप्रीणीतयत् यदेताः एता आप्रियः आप्रियो भवन्ति आप्रिय इत्या आप्रियः भवन्ति यज्ञः यज्ञो वै वै प्रजापतिः प्रजापतिर्यज्ञम् प्रजापतिप्रजापति वैताभिः एताभिर्मुखतः मुखत आप्रीणादि प्रीणात्यपरिमितछन्दसः अपरिमित छन्दसो भवन्दे अपरिमितछन्दस इत्यपरिमितः छन्दसः भवन्त्यपरिमितः अपरिमितः प्रजापतिः अपरिमितपरिमितःपतिः ः प्रजापदृति प्रजापतेःक्ताः ऊनादिक्ताः ऊनादिक्ता इत्यूनातिरिक्ताः विचनाः प्रजात्यै प्रजात्यै लोमशम् प्रजात्यादि प्राजात्यै लोमशम् वै वै राम नामैत एतच्छन्दः छन्दः प्रजापृह प्रजा पशवो वशाः वसाः पशून् पशुनेव हे वाप अवरुन्धे रुन्धे सर्वाणि सर्वाणि वै वा एताः एतारूपाणि रूपाणि रूपाणि रूपाण्यग्नौ अग्नौ चित्ये चित्ये क्रियन्दे क्रियन्ते तस्मात् तस्मादेताः एता अग्नेः अग्नेश्चित्यस्य चित्यस्य भवन्ति भवन्त्येकविंशतिम् एकविंशतिसामिधेनीः एकविवंशतिमित्येका विपुंसतिम् सामिधेनीर्णो सामिधेनीरिति साम्धेनीः अन्वाः आहृग एकविपुंसः एकविपुंसो रुचम् एकविपुंस इत्येका विपुंशः रुचमेव एव गच्छति प्रतिष्ठामेव प्रतिष्ठामिति प्रतिष्ठा एव प्रतिष्ठा प्रतिष्ठा हि प्रतिष्ठेति प्रतिष्ठा ह्येकविपुंशः एकविपुंशश्चतुर्विंशतिम् एकविगुंस इत्येका विपुंसः चतुर्विभुंशति मनो चतुर्विपंशतिमिति चतुर्विंशतिम् अन्वाः आह चतुर्विपुंसतिः चतुर्विंशति चतुर्विंशतिरिति चतुर्विंशतिः अर्धमासाः संवत्सरः अर्धमासाः इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो अग्निः संवत्सर इति संवत्सरः अनिर्वैश्वाधरः वैश्वाधरः साक्षात् साक्षादेव साक्षात् इति वैश्वानव अपबन्धे वृन्धे पराचीः पराचीर्नो आहपराग परागिव इव हि सुवर्गः सुवर्गो लोकः सुवर्गे सुमायाः लो समायाग्ने अग्निरुः ऋतवो वर्धयन्तु वर्धयन्ति इत्याह आह समाभि समाभिरेव एवाग्निम् अग्निम् वर्धयति वर्धयत्रः ऋतुभिः संवत्सरम् ऋतुभिर्त्रुभिः संवत्सरम् विश्वाः संवत्सरमिति सा वत्सरम् विश्वाहा आभाहि भाहि प्रदिशः प्रदिशः पृथिव्याः सर्वाः सर्वादृशः प्रति प्रत्यौहराम् अहरामश्विनाः अश्विना मृत्युम् मृत्युमस्मात् अस्मादिति मृत्युमेव एवास्मात् अस्मादप अपनुदति आहा आहा बात्मा आत्मा में वैतमः तपः पाप्मानम् पाप्मानमेव एवास्मात् तस्मादप अवहन्ति हन्त्यगन्म अगन्मद्योतिः ज्योतिरुत्तमम् उत्तममिति उत्तममित्यम् इत्याह आहासौ असौ वै वा आदित्यः आदित्योद्योतिः ज्योतिरुत्तमम् उत्तममादित्यस्य उत्तममित्युतम् आदित्यस्यैव एव सायुज्यम् सायुज्यम् गच्छति गच्छति न संवत्सरः संवत्सरस्तिष्ठति संवत्सर इति संवत्सरः स्य अस्य श्रीः श्रीश्रिष्ठलि त्रिष्ठलि अस्य यस्यैताः एताः त्रिगन्धे त्रिगन्धे ज्योतिष्वरीम् ज्योतिश्वरीमुत्तमान् उत्तमान् उत्तमान् उत्तमान, इति उत्तमान, उत्तमान, मन्नाः आह ज्योतिः तस्मा उपरिष्टाद् उपरिष्टाद् दधाति दधाति सुवर्गस्य स्वर्गस्य लोकस्य लोकस्यानुख्याति षड्भिरिषड् षड्वै मारेव ऋतभिरि ऋतो सप्त सप्तछन्दाः छन्द छन्दर् एवयम् एनम् विश्वे विश्वे देवस्य देवस्य नेतुः नेतुरितिष्टुभाेत्युभः उत्तमया जुहोति उत्तमयेत्य वाग्भ्वयि वा अनुष्टव अनुष्टुब्धस्माद् अनुष्टविद्य नोस्तु तस्मात् प्राणानाम् प्राणानाम् वाग् प्राणानामिति प्राणानाम् वागुत्तमा उत्तमेकस्मात् उत्तमेत्य एकस्मात् अक्षरात् अक्षरादनाप्तम् अनाप्तम् प्रथमम् प्रथमम् पदम् पदम् तस्मात् तस्माद्यत् यद्वाचः वाचो अनाप्तम् तत् तम् मनुष्या उप जीवन्नि जीवन्नि पूर्णया पूर्णया जुहोति जुहोति पूर्णः पूर्णैव इव हि हि प्रजापतिः प्रजापति प्रजापतेः प्रजापतिलित् प्रजापतिः प्रजापतेरा प्रजापतेलित् प्रजापतेः आ की न्यूनया न्यूनया जुहोति न्यूनये तिनि ऊनयाः जुहोति न्यूनात् प्रजापतिः प्रजापतिः प्रजाः प्रजापति प्रजापतिः प्रजा असजत प्रजा इति प्राजाः असजतप्रजानाम् प्रजानाकम् सृष्ट्यैः प्रजानामिति प्राजानाम् सृष्ट्यै यत् यदर्चिषि अर्चिभिः प्रवृञ्जात् प्रभृञ्जाद्भूतम् प्रभृञ्जादि प्रवृञ्जात् भूतमव अवरुन्धीत रन्धीत यत् एवाव अवरुन्धे वृन्धे भविष्यत् भविष्यद्धि हि भूयः भूयो भूताद् भूताद्वाभ्याम् द्वाभ्यामृ प्रकृणक्ति कृणक्ति द्विपाद् विपाद्यजमानः विपादिति द्विपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै ब्रह्मणा प्रतिष्ठित्या प्रतिष्ठित्यै ब्रह्मणापि वा एषा एषा यजुषा यजुषा सम्भृता संहृता यत् सम्भृतेति संहृता यदुधा सा यत् यद्भिद्येत भिद्येतार्तिम् आर्तिमा आर्क्षेत् पृच्छेद्यजमानः यजमानो हन्येत हन्येता अस्य अस्य यज्ञः यज्ञो मित्र मित्रैता एतामुखा मुखान्तव तपेति इत्याह आह ब्रह्म ब्रह्म वै वै मित्रः मित्रो ब्रह्मन् ब्रह्मन्नेव देवैनाम् एनाम् प्रति प्रतिष्ठापयति स्थापयति न नातिम् आतिवा आच्छति पृच्छति यजमानः यजमानो नास्य अस्य यज्ञो हन्यते हन्यते यदि यदित भिद्येतैः तैरेव एव कपालैः कपालैः सम् स संसृजेत् सृजेत्सा सैव एव ततः ततः प्रायश्चित्तिः प्रायश्चित्यल्यः यो गतश्रीः गतश्रीः स्यात् गतश्रीरिति गताश्रीः स्यान्मथित्वा वथित्वा तस्य तस्या वा अपदध्यात् दध्याद्भूतः भूतो वै वा एषः उपैति येति यः भूतिकामः स्यात् भूतिकामैति भूतिकामः स्याद्यः सम्भवेत् सम्भवेत् सः सम्भवेदिति स एव देवतस्य तस्य स्यात् स्यादतः अथो हि ह्येषः एष सम्भवति सम्भवत्येषः सम्भवतीति सम्भवति एष वै वै स्वयम्भोः स्वयम्भोर्नाम स्वयम्भोरिति एवयम् यम् कामयेत कामयेत भ्रातृव्यम् अस्मै जनेयम् जनयेयमिति इत्यन्यतः अन्यदस्तस्य तस्याहृत्य आहृत्य वा आहृत्य आहृत्य अवदध्यात् दध्यात् साक्षात् साक्षादेव साक्षादिति साक्षात् एवास्मै अस्मै भ्रातृव्यम् भ्रातृव्यम् जनयति जनयत्यम्बरीषात् अम्बरीषादन्नकामस्य अन्नकामस्या वा अन्नकामस्येत्यन्नकामस्य अवदध्यात् दध्यादम्बरीषेः अम्बरीषे वै वा अन्नम् अन्नम् ब्रियते ब्रियते स योनि स सजो योगन्येव स योनि दिशायोनि एवान्नम् अन्नमव अवरुन्धे वृन्धे मुञ्जान् मुञ्जानव अवदधाति दधात्यूर्ग् दधा ऊर्ग्वै वै मुञ्जाह मुञ्जा ऊर्जम् ऊर्जमेव एवास्मै अस्माभि अपि दधाति दधात्यग्निः निलायदसः सकृमुकरम् क्रुमुकम् प्राविशत् अविशत्कृ अवदधाति यदेव एवास्य अस्य तत्र तत्र न्यक्तम् न्यक्तम् तत् न्यक्तमिति तदेव एवा अवरुन्धे वृन्धाद्य आज्येन सम् संयोत्येतत् एतद्वै वा अग्नेः अग्नेः प्रियम् प्रियम् धाम धामयत् यदाज्यम् आद्यम् प्रियेण ए गंधाम ना धाम् नासम् समर्धयति अर्थयत्यथो अथोरेजसा अथो इत्यथो एजसा वैगङ्गजीम् वैगङ्गजीमा आदधाति दधाति भा भा एव एवाव अवरुन्धे रुन्धे शमीमयीम् शमीमयीमा शमीमयीमिति शमीमयीम् आदधाति दधाति शान्त्यै शान्त्यीसीद सीद त्वम् त्वम् अस्या उपस्थये उपस्थयति उपस्थयुवास्थे ऋषिभिः ऋषुभिर्जातम् त्रिषुभिरि त्रिसृभिः जातमुप उपतिष्ठते तिष्ठते त्रयः त्रये इमे इमे लोकाः लोका येषु तेष्वेव एव लोकेषु लोकेष्वाविधम् आविधम् गच्छति आविधमित्या आविधम् गच्छत्यथो अथोः प्राणान् नथो इत्यथोः प्राणानेव प्राणानिति प्राणान् एवात्मन् नात्मन् धत्ते धत्त इति धत्ते नः पुरा पुराग्निः अग्निरपरुषोक्ष्णम् अपरुषोक्ष्णम् दहति अपरशरुग्णमित्यपरषोक्ष्णम् दहति तत् तदस्मै अस्मै प्रयोगः प्रयोग प्रयोगैः प्रायोगः एव ऋषिः रशी, ऋषिरस्वदयत् अस्वदयद्वित् यदग्ने अग्नेयानि यानि कानि तानि च चेति इति समिधम् समिधमा समिधमिति संविधम् आदधाति दधात्यपर्षवृक्षणम् अपर्षवृक्षणमेव अपर्षवृक्षणमित्यपर्षो वृक्षणम् एवास्मै अस्मै स्वदयति स्वदयति सर्वम् सर्वमस्मै अस्मै स्वददे स्वददेयः यदेवम् एवम् वेद वेदौदुम्बरीम् औदुम्बरी मा आदधाति दधात्यूर्ग ऊर्ग्वै वा उदम्बरः उदुम्बरवूर्जम् ऊर्जमेव एवास्मै तस्मा अपि अभिदधाति दधाति प्रजापतिः प्रजापतिरग्निम् प्रजापतिरलितप्रजापतिः अग्निमसृजत असृगतम् तकम् सृष्टम् सृष्टकम् रक्षाकुम्सि रक्षाकस्य जिघाकम् सन् अजिघाकुम् सह स एतत् राक्षोघमवश्यत् राक्षोघमिति राक्षसाघ्नम् अपश्यक्तेन तेन वै वै सः स रक्षागुंसि रक्षागस्य वा अपाहत अहतयत् यद्राक्षोघ्नम् राक्षोघम् भवति राक्षोघमिति राक्षसाघ्नम् भवत्यग्नेः अग्नेरेव एव तेन तेन जातान् जातान् रक्षागुंसि रक्षागस्य वा अपहन्ति हन्त्याश्वत्थीम् आश्वत्थीमा आदधारिधात्यश्वत्थः अश्वत्थो वै वैव वनस्पतीनागम् सपत्नसाहः समद्नसाहो विजित्यै समद्नसाः इति सपत्नासाहः विजित्यै वैगङ्गतीम् विजित्या इति वीजित्यै वैगङ्गतीमा आदधाति धादिभाः भा एव अवरुन्धे श्रीमयीमा श्रीमयीमिति आदधाति दधाति शान्तिः शान्तिः सगुंसितम् सकुंसितम् मे सघंसितमिति संशिरम् मे ब्रह्म ब्रह्मोत् उदेषाम् येषाम् बाहू बाहू अतिरम् बाहू इति बाहू अतिरमिति इत्युत्तमे उत्तमे औदुम्बरी उत्तमे इत्युतौत्तमे औदुम्बरी वाचयति औदुम्बरी इत्यौदुम्बरी वाचयति ब्रह्मणा ब्रह्मणैव एव क्षत्रम् क्षत्रंसम् सद्गृश्यति यदि क्षत्रेण क्षत्रेण ब्रह्म ब्रह्म तस्मात् तस्माद्ब्राह्मणः ब्राह्मणो राजन्यवान् राजन्यवानति राजन्यवानिति राजन्यवान् अत्यन्यम् अन्यम् ब्राह्मणम् ब्राह्मणम् तस्मात् तस्माद् राजन्यः राजन्योः ब्राह्मणवान् ब्राह्मणवानति ब्राह्मणवानति ब्राह्मणावान् अत्यन्यम् अन्यकम् राजन्यम् राजन्यम् मृत्युः मृत्युर्वै वा एषः एष यत् यदग्निः अग्निरमृतम् अमृतकम् हिरण्यम् हिरण्यकम् रुक्मम् ऋक्मन्तरम् अन्तरम् प्रति प्रतिमुञ्चते अमृतमेव एव मृत्योः मृत्योरन्तः अन्तर्धत्ते धत्त भवति एकविंशतिनिर्बाध इत्येकविंशतिनिर्बाधः भवत्येकविंशतिः एकविंशतिर्वै एकविंशतिरित्येका विविंशतिः वै देवलोकाः देवलोका इति देवलोकाः द्वादशमासाः मासाः पञ्च पञ्च तव रथवस्त्रयः इमे लोकाः लोका असौ असावादित्यः आदित्य एकविपुंशः एकविगुंश एतावन्तः एकविगुंश इत्येका विपुंशः देवलोकास्तेभ्यः देवलोका इति देवालोकाः तेभ्य एव एव भ्रातृव्यम् भ्रातृव्यमन्तः अन्तरेति एतनिर्बाधैः निर्बाधैर्वै एवासुरान् असुरान् निर्बाधे निर्बाधे कुर्वत निर्बाध इति बाधे अकुर्वत तत् अन्निर्बाधानाम् निर्बाधानानिर्बाधत्वम् निर्बाधानामिति हि बाधानाम् निर्बाधत्वम् निर्बाधी निर्बाधत्वमिति निर्बाधात्वम् निर्बाधी भवति निर्बाधीतिनि हि बाधी भवति भ्रातृव्यान् भ्रातृव्यानेव एव निर्बाधे निर्बाधे कुरुते निर्बाध इति बाधे कुरुते सावित्र्या सावित्र्या प्रति प्रतिमुञ्चते मुञ्चते त्यै न कोशासाह प्रसूत्या इति प्रासूद्यी न कोशासेति इत्युत्तरया उत्तरयाहोरात्राभ्याम् उत्तरयेति अहोरात्राभ्यामेव एवैनम् एनौ उद्यच्छ देवाः देवाग्निम् अग्निम् धारयन् धारयन् द्रविणोदाः द्रविणोदा इति द्रविणोदा इति द्रविणः दाः इत्याह आह प्राणाः प्राणा वै प्राणा प्राणाः वै देवाः देवाद्रविणोदाः द्रविणोदा अहोरात्राभ्याम् द्रविणोदा इति द्रविणः अहोरात्राभ्यामेव अहोरात्राभ्यामित्यह रात्राभ्याम् एवैनम् एनमुद्यत्य उद्यत्य प्राणैः उद्यत्येत्य प्राणैर्दाधार प्राणैर्ति प्राणैः दाधारासीनः आसीनः प्रति प्रतिमुञ्चते मुञ्चते तस्मात् आसीनाः प्रजाः प्रजाः प्रजा इति प्राजाः प्रजायन्ते जायन्ते कृष्णाजिनम् कृष्णार्जिनमुत्तरम् कृष्णाजिनमिति कृष्णाजिनम् उत्तरम् तेजः ब्रह्म कृष्णाजिनम् कृष्णाजिनम् तेजसा कृष्णाजिनमिति कृष्णार्जिनम् तेजसा चैव एवैनम् एनम् ब्रह्मणा ब्रह्मणा च सोभयतः उभयतः परि परिगृह्णाति गृह्णाति षडुद्यामम् षडुद्यामगं भवति षड्वः ऋतव ऋतुभिः ऋतुभिरेव ऋतुभिर् ऋतुभिः एवम् एमुद् ऋद्यच्छ्रे यच्छ्रेजत् यद्वादशोद्याम् द्वादशोद्यामम् संवत्सरेण द्वादशोद्याम् द्वादशैव संवत्सरेणेति संवत्सरेण एव मौञ्जम् मौञ्जम् भवति भवत्यूर्ज ऊर्ज्वै वैमुञ्जाह मुञ्ज ऊर्जा ऊर्जैव एकैनम् एनपुंसम् सवर्धयति अर्धयति सुवर्णः सुपर्णोऽसि सुवर्णयति सुवर्णः गरुद्माने गरुद्मानिति इत्यव अवेक्षरे ईक्षदे रूपम् रूपमेव एवास्य अस्यैतत् एतन्महिमानम् महिमानम् याजष्टे व्याजष्टे दिवम् व्याजष्टे दिवि आजष्टे दिवम् गच्छ गच्छ सुवः सुपः पदेति इत्याह आह सुवर्गम् सुवर्गमेव स्वर्गमिति स्वग्रम् एरम् एनम् लोकम् लोकम् गमयति गमयतीति गमयति समिद्धोजन् समिद्धयति संविद्धः अञ्जम् कृतरम् कृतरम् मतीनाम् मतीनाम् कृतमग्ने अग्ने मधुमत् मधुमत्पिण्वमानः मधुमदिति मधुमत् पिण्वमान इति पिण्वमानः वाजी वहन् वहन्वाजिनम् वाजिनम् गातवेदो देवानाम् गातवेद इति गातावेदः देवानाम् वक्षि वक्षि प्रियम् प्रियमा आसधस्थम् रथस्थमिति सधास्थम् हृदे नाञ्जन् अञ्जन्सम् सम्पथः रथो देवजानान् देवयानाम् प्रजानन् देवजानानिति देवाजानान् प्रजानन् वाजी प्रजानन्निति प्राजानन् वाग्यपि अप्येतु ये तु देवान् देवानिति देवान् अनुत्वा सप्ते प्रतिशः प्रतिशः प्रदिशयति प्रादिशः तदन्नागस्वधा तथामस्मै तथामिति स्वधा स्वधाम अस्मै यजमानाय यजमानाय धेहि धेहिरिधेहि यज्ञश्च चासि आसीरन्द्यः अन्त्यश्च च वाजिन्ने आशुश्च चासि आसि मेध्यः मेध्यश्च सप्ते सप्त इति सप्ते अन्यश्वाः त्वा देवैः देवैर्वसुभिः सजोषाः वसुभिरिति सजोषाः इति सा जोषाः प्रीतम् वह्निम् वह्निम् वहतु वहतु इति जातावेदाः स्तीर्णम् बहिः बर्हिः सुष्टरीम सुष्ठरीमा जुषाणा सुष्ठरीमेदि सौस्तरीम विषाणोरु उरु पृथु पृथुः प्रथमानम् प्रथमानम् पृथिव्याम् पृथिव्यामिति पृथिव्याम् देवेधरिद्युक्तम् युक्तमिति अरिति सजोषाः सजोषाः स्योनम् सुविते इति सा जोषाः एतावत् सुभगाः सुभगा विश्वरूपाः सुभगा इति सोभगाः विश्वरूपापि विश्वरूपा इति विश्वारूपाः भिश्रयमाणाः पक्षोभिरितिपक्षाःभिः श्रयमाणा उद् उदातैः आदैरित्यादैः विश्वासतीः पते अवशः अवशः शुम्भमानाः शुम्भमाना द्वारः द्वारो देवीः देवीः सुप्रायणाः अन्दरा मित्रावरुणा मित्रावरुणा चरञ्जी मित्रावरुणेति मित्रावरुणा चरन्ति मुखम् चरन्ति इति चरञ्जी मुखम् यज्ञानाम् यज्ञानामभि संविधाने इति संविधाने कुषासा वाहिरण्ये सुहिरण्ये सुशिल्पे सुहिरण्ये इति सु सुशिल्पे ऋतस्य सुशिल्पे इति सुशिल्पे ऋतस्य योनौ यो न विह विह साधयामि साधयामीति साधयामि प्रथमा वाम् वाम् सरथिनः सरथिना सुवर्णाः सरथिनेति सुवर्णेति सुवर्णाः ेवौ पश्यन्तौ पश्यन्तौ भुवनानि भुवनानि विश्वाः विश्वेति विश्वाः अभिप्रयम् चोदना चोदना वाम् वाम् विमानः विमाना होतारा होतारा ज्योतिः ज्योतिः प्रदिशाः प्रदिशा, प्रदिशा आदित्यैर्नः नो भारतीयज्ञम् सरस्वती सरस्वती सह सह रुद्रैः रुद्रैर्नः न आवीत् आवीदित्यावीत् इडोपहूता उपहूता वसुभिः उपहूतेत्युपाहूताः वसुभिः सजोषाः वसुभिरिति सजोषा यज्ञम् सजोषा इति यज्ञन्नः नो देवीः देवीरमृतेषु अमृतेषु धर्ता धर्तेति धर्ता त्वष्टा वीरम् वीरम् देवकामम् देवकामम् जान देवकाममिति देवाकामम् विजानत्वष्टुः त्वष्टुर्वा पृष्ठेदम् इदम् विश्वम् विश्वम् भुवनम् भुवनम् कर्तारुमिह इह यक्षि यक्षि होतः होतरिति होतः अश्वहृतेन उपदेवान् देवाषः ऋतुषः पाठः ऋतुषेत्रोषः पादयेतु एत्येतु अनस्पतिर्देवलोकम् देवलोकम् प्रजानन् देवलोकमिति देवलोकम् प्रजानन् अग्निः प्रजान् द्यः सद्यो जातः जातो यज्ञम् यज्ञमग्ने अग्ने इत्यग्ने स्वाहा कृतेन हविषाः स्वाहा कृतेन निःस्वाहाकृतेन हविषा प्ररोगाः प्रोगा याहि प्ररोगा इति पुरः या हि साध्या साध्या हविः हविरदन्दु अनन्दो देवाः देवा इति देवाः पञ्चमकाण्डे प्रथमः प्रश्नः